श्रीहरये नमः अथ षोटसोऽध्यायः ब्रह्मोवाच इति धद्गृणातां तेषां मुनीनां योगधर्मिणां प्रदिनन्द्यजागादेतं विकुण्ठनिलयो विभुः भगभानुवाच एतौ तौ पार्श्वतौ मह्यं जयो विजय एव च गतर्थीकृत्य मां यत्वो वक् वक्राधामतिक्रमं यस्त्वेतयोर्धृो दण्डो भवद्भिर्मामनोव्रतैः स एवानुमतोऽस्माभिर्मुनयो देवहेलनात् तद्वप्रसादयां यद्य ब्रह्म दैवं परं हि मे तद्धीत्यात्मकृतं असत्कृताः यन्नामानि च गृह्णाति लोके भृत्ये कृतागसि सोऽसाधुवातस्तत्कीर्तिम् हन्ति त्वचमिवामयः यस्यामृतामलयस श्रवणावगाहः सत्यः पुनानि जगता स्वपचात् विकुण्टः भवद्य उबलब्ध चिन्त्यां स्वबाहुमभिव प्रतिकूलवृत्तिं यत्सेवया चरणपद्मपवित्र रेणं सत्यक्षता किलमलं प्रतिलब्धशीलं न श्रीर्विरक्तमपि मां प्रेक्षालवार्त इतरे नियमान् वहन्ती नाहं तदात्मीयजमानः विर्विताने ोधत्कृतप्लुतमधन्हुतभुङ्मुखेन यत् ब्राह्मणस्य मुखतश्चरतोऽनुगासं तुष्टस्य मय्यवचितैर्निजकर्मपाखैर्येषां बिभर्म्यघमदण्टविकुण्ठयोग माया विभोधिमलाघ्रिरजक्रीटैः विप्रांस्तु को न विषहेतय धर्हणाम्भ सत्यः पुनातिसखश्चन्द्रललामलोकान् एमेतनोर्द्विजवरान्धुहतीर्मदीया भूतान्यलब्धशरणानि च भेदबुद्ध्या द्रश्यन्ध्यगक्षतदृशो ह्यहिमन्यवस्थान् ये ब्राह्मणान्मयि धियाक्षिपतोषयन्त दुष्यधृतस्मितत् सुदोषितपद्मवक्त्रा वाण्यानुरागकलयात्मजवद् गृणन्त सम्बोधयत्यहमिवाकम् उपाहृतस्थैर् तन्मे स्वभर्दुरवसायमलक्षमाणो यक्ष्मद्व्यतिक्रम गतिं प्रतिपद्य भूयो ममान्तिगमिताम् अदनुग्रहो मे यत्कल्पतामचिरतो भृतयोर्विवासः ब्रह्मोवाच अतत्तस्यो सतीं देवीं ऋषिकुल्यां सरस्वतीम् नास्वाद्यमन्युधष्टानम् तेषामात्माप्यतृप्यथा सतीं व्याधाय शृण्वन्तो लघ्वीं कुर्वर्दह वरां विगाह्याघातगम्भीरां न प्रहृष्टाक्षुभिदत्वचः ऋषयवूचू न वयं भगवन् विद्मस्तव देव चिकीर्षितं कृतो मेनो ग्रहश्चेति यधत्यक्षप्रभाक्षसे ब्रह्मण्यस्य परं दैवं ब्राह्मणा प्रभो विप्राणं देवदेवानां भगवानात्मदैवतं त्वत्तः सनातनो धर्मो रक्षते तनुभिस्तव धर्मस्परमो गुह्यो निर्विकारो भवान् मतः तरन्दिह्यज्ञसा मृत्युं निवृत्तायदनुग्रहात् योगिनः स किं स्वेत् अनुगृह्येत यत्परैः यं वै विभूतिरुपयान्त्यनुवेलमन्यैरर्तार्तिभिरसादृतपाधरेणोर्धन्यार्पिधाघ्रितुलसीनवधाम धाम्नो लोकं मधुव्रतपतेरिव कामयानां यस्तां विविक्तचरितैरनुवर्तमानाम् नाध्याद्रियत् परमभागवत प्रसङ्गः सत्वं द्विजानुपतः पुण्यरजः श्रीवत्सलक्ष्मकिमघाभगभाजनस्त्वं धर्मस्य ते भगवत् त्रियुगत्रिभिः स्वये पद्भिश्चराचरमितं द्विजदेवतार्थं नूनं भृतं तदभिघातिरजस्तमश्च सत्त्वेन नो वरधया तनुवानिरस्य नत्वं दिजोत्तमकुलं द्विजोत्तमकुलं यदिहात्मगोपम् गोप्ता वृषस्वर्हणेन ससुसूनृतेन तर्ह्ये नङ्क्ष्यति शिवस्तवदेव पन्ता लोहो गृहीष्युषभस्य हि तत्तेन भीष्टमिव सत्त्वनिधेर्विधिस्थो क्षेमम् नैतावता पतेर्पध विश्वभर्दोस्ते चक्षतम् त्वन तस्य स दे विनोदहा यं वानयोर्धममदी स भवान् मन्महि निर्व्यलीकम् अस्मासु उचितो ध्रियताम् स ये नागसौ वयम् अयुङ्क्ष्महिषेन् एतौ सुरेतरगतिं प्रतिपद्य सद्य सम्भ्रह्म सम्प्रत समाद्यनुभत्तयो गौ भूयः सकासमुपयास्यत आसु यो भापोमयैव निधस्तधवैत विप्राह ब्रह्मोवाचा मुनयो दृष्ट्वा नयनानन्दभाजनं वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयं प्रभं भगवन्तं परिक्रम्य प्रणिपत्य अनुमान्य च प्रदि जग्मुः प्रमुदिता संसन्तो वैष्णवीं भगवाननुघावाः यादम् मा भैष्टमस्तु सं ब्रह्मतेजसमर्थोऽपि हन्तुं निश्चे मतं तु मे ये निर्दिष्टं प्रमया क्रुद्धया यथा पुरापवारिता द्वारि विसन्ती मयि सम्भ्रम्भयोगेन निस्तीर्य ब्रह्महेलनं प्रत्येष्यतं निकासं मे कालनाल्पीयसा पुनः द्वास्थावादिस्त्य भगवान् विमानश्रेणिभूषणं सर्वातिशयया लक्ष्म्या जुष्ठं स्वं दिश्यमाविशत् तौ तु गीर्वाणऋषौ भौ दुस्तरात् हरिलोकतः हतश्रियौ ब्रह्मसापात् अभूतां विगतस्मयौ तथा विकुण्डधिषणात् तयोर्निपतमानयोः हाहाकारो महानासीत् विमानार्गेषु पुत्रकाः तावेव ह्यधुना प्राप्तो पाषतप्रवरौ हरेर्दितेर्झठरनिर्विष्टम् काश्यपं तेजवुल्भणम् थयो असुरयोरद्य तेजसायमयोर्हि वः आक्षिप्तं ते, ते जयेतर्हि भगवांस्तद्विधित्सति विश्वस्य यस्तिलयोद्भवहेतुराध्यो योगेश्वरैरभिधुरत्यययोगमायः क्षेमं विधास्यति स नो भगवान् त्रयदिश तत्रास्मदीय विमृशेन किया निर्तः इति श्रीमद्भागवते महापुराणे तृतीयस्कन्ते षोडशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणम् गोविंद गोविंद सद्गुरु महाराज की जय